हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकोनविंशति अधिकशतम स्वर्गः श्रीमहादेवस्य आज्ञया श्रीरामलक्ष्मणाभ्याम् विमानेन आगतस्य रात्र्यो दशरथस्य अभिवादनम् पुत्राभ्याम् सीतायै च आवश्यकं सन्देश्य तस्य गमनं च एतत् शुभं वाक्यम् घवेणानुभाषितम् तथा शुभतरं वाक्यम् व्याजहार महेश्वरः पुष्कराक्ष महाबाहु भावक्ष परन्तप दृष्ट्या कृतम् इदम् कर्म त्वया धर्म भृताम्बर दृष्ट्या सर्वस्य लोकस्य प्रवरुद्धं दारुणं तमः अपवृत्तम् त्वया सङ्ख्ये आश्वस्य भरतम् दीनम् कौसल्याञ्च यशस्विनीम् कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् प्राप्य राजं अयोध्यायाम् नन्दयित्वा सुरुज्जनम् इक्ष्वाकोणाम् कुले वंशम् स्थापयित्वा महाबल इष्ट्वा सुरगमेधेन प्राप्य चानुत्तमम् यश सा ब्राह्मणेभ्यो दरम् दत्त्वा श्रीदिवं गन्तुमर्हसि एष राजा दशरथौ विमानस्थ पिता तव काकुत्स्थमानुषे लोके गुरुसेव महायशः इन्द्रलोकं गत श्रीमान् तया पुत्रेण तारितः लक्ष्मणेन स भ्रात्रा अभिवादय महादेव वच श्रुत्वा राघव सः लक्ष्मणः विमानशिखरस्थस्य प्रणामम् अकरोत् पितुः दीप्यमानम् स्वया लक्ष्म्या विरदोम्बरधारिणम् लक्ष्मणेन सह भ्रात्रा ददर्श पितरम् प्रभु हर्षेण महताविष्टो विमानस्थो महीपतिः प्राणिप्रियतरम् दृष्ट्वा पुत्रं दशरसहस्रता आरोप्य के महाबाहु वरास न गतप्रभु बाहुभ्यां सम्परिश्य ततो वाक्यं समाददि न मैश्व बहुमतः सम्मानस्य सुरश भैः त्वया राम विहीनस्य सत्यं प्रति शृणोमि ते अद्यतन्य सामित्रं दृष्ट्वा सम्पूर्ण निश्चयेन वनवासं च प्रीतिरासीत् परां मम कैकैयानि चोक्तानि वाक्यानि वदताम्बर तव प्रव्राजनाथानि स्थितानि हृदये मम सा दुष्टाय कुशलिनं परिष्ज्य स लक्ष्मणम् अद्य दुःखादिमुक्तोऽस्मि निहारादिव भास्कर रितोऽहं त्वया पुत्र सुपुत्रेण महात्मनः अष्टावक्रेण धर्मात्मा कहो लो यथा इदा च विजानामि यथा सौम्य सुरेश्वरै वधार्थं रावणे सिह पिहितं पुरुषोत्तमम् सिद्धा स खलु वनान्निवृत्तं संवृष्टा द्रक्ष्यते शत्रुसूदनम् सिद्धा सा खलु राम नराये त्वां पुरीं गतम् राज्ये चैवाभिषिक्तम् च द्रक्ष्यन्तेव सुधाधिपम् अनुरक्तेन बालिबलिना शुचिना धर्मचारिण इच्छेयं त्वां भरतेन समागतम् चतुर्दश समा वने निर्यातिता त्वया वसता सीतया साधं मत्प्रीत्या लक्ष्मणेन च निवृत्त वनवासोऽसि प्रतिज्ञा पूरिता तया रावणं च रमणे हत्वा देवता परितोषिता कृतं कर्म यश्लाघ्यं प्राप्तं ते शत्रुसूदन् भ्रात सह राज्य दीर्घनुहण राजलिब्रवीत गुरु प्रसाद धन वज कैकयी भरत सपुत्र तह तयामी यदुक्ता कैकयी तय स शाप कैकयी घोर सपुत्र न सुजे प्रभेती स महाराजो <coughs> क्ता कृताञ्जलिं लक्ष्मणं च परिष्वज्य पुनर्वाक्यं वाचः रामं शुश्रूषता भक्त्या वैदेह्या सहस्रीतया कुता मामप्रीति प्राप्तं धर्मफलं च दे धर्मं प्राप्स्यसि धर्मद्य यश च विपुलं भुवि रामे प्रसन्ने स्वर्गं च महिमानं तथोत्तमम् रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन राम सर्वस्य लोकस्य हितेष्वीर एते सेन्द्रा श्रोकाः सिद्धाश्च परमर्शयः अभिवाद्य महात्मानम् अर्चन्ति पुरुषोत्तमम् एतत् तदुत्तमम् व्यक्तुम् अक्षरम् ब्रह्म गुह्यम् रामः परन्दपः अवाप्त धर्माचरणं यजश्च विपुलं त्वया एवं शुश्रूषता व्यग्रम् वैदेह्या सहसि तया इत्युक्त्वा राजा स्नुषाम्बद्धाञ्जलिं स्थिताम् पुत्रीत्याभाष्य मधुरम् शनैरेनामुवाचः कर्तव्यो न तु वैदेहि मन्योऽत्यागम्य रामेणेदम् विशुद्ध्यर्थम् कृतम् भयि तद्धितैषिणा सुदुष्कारमिदम् पुत्री तव चारित्रलक्षणम् कृतम् यत् तेन नारीणाम् यशोह्य भव... अभिवभविष्यति न तम् कामम् समाधेय भर्तु शुश्रूषणम् पथि अवश्यं तु मया वाचम् एष ते इति प्रति समादिश्य पुत्रो सीतां च राघव इन्द्रलोकम् विमानेन ययो दशर्सनृप विमानमास्थाय महानुभाव आमन्त्रपुत्रो सीतया च जगाम देवः प्रवरत्य लोकम् इत्याचे श्रीमद् रामायणे वाल्मीकि अधिकावे युद्धकाण्डे एकोनविंशति अधिकशत संवत्सर्ग सीतारामचन्द्रार्मणमस्तु